श्रीहरये नमः अथ पञ्चपञ्चाशत्तमोऽध्यायः श्रीसुख उवाच कामस्तु वासदेवांशो दत्त प्रागृद्धमन्युनां देहोपपत्तये भूयस्तमेव प्रत्यपत्यत स जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः प्रद्युम्न इति विख्यातः सर्वतो नवमः पितुः तं सम्भरः कामरूपी हृत्वा तोकम् अनिर्दशम् सविदित्वात्मनः शत्रुम् तं निर्जघार बलवान् मीनः सोप्यपरैः सह वृतोजालेन महता ग्रीहितो मत्स्यजीविभिहे तं सम्भराय कैवर्ता उभाजह्रु उपायनं सूतामहानसं नीत्वा वध्यन् स्वदिति नाद्भुतं दृष्ट्वा धतुदरे बालं मायावात्यैन्यवेदयन् नारदोकथयत् सर्वं तस्यासङ्कितचेतसः बालस्य तत्त्वमुत्पत्तिं मदस्योधरनिवेशनम् सा च कामस्यद्वैपत्नी रतिर्नाम यशस्विनी पत्युर्निर्धक्तदेहस्य देहोत्पत्तिं प्रतीक्षति निरूपितासम्भरेण सा सुपौधनसाधने कामदेवं शिशुं भूत्वा चक्रे स्नेहं तदार्भये नातिदीर्घेण कालेन सकाशिनीरूढयौवनः जनयामासनारीणां वीक्षन्तीनां च विभ्रमं सातं पतिं पद्मदळायते क्षणं प्रलम्बभाहुं नरलोकसुन्दरं स्वीडहासोत्तभितः ब्रुवेक्षति प्रीत्योपतस्तेरधिरङ्गसौरतैः तामाघ भगवान् कार्ष्णेर्मातस्तेमतिरन्यता मातृभावमतिक्रम्य वर्तसे कामिनी यथा रतिरुवाच भवान्नारायणः सुतःभरेण आहृतो गृहात् अहं ते धिक्कृता पत्नीरथिः कामो भवान् प्रभो येष त्वा निर्दशं सिन्धौ अशिपच्छम्भरोऽसुरः मत्स्योग्रसीतधुर्धराद् इह प्राप्तो भवान् प्रभो तमिमं जगि दुर्दर्शं दुर्जयं शत्रुमात्मनः माया सतविधं त्वं च मायाभेद्मोहनादिभिः परिशोचति ते माता कुररीव गतप्रजा पुत्रस्नेहाकुलाधीना विवस्था गौरीवातुरा प्रभाष्यैवं दतौ विद्यां प्रद्यं नायमहात्मने मायावतीमहामायां सर्वमायाविनाशिने स च संबरमभ्येत्य संयुगाय समाह्वयत् अविशस्यस्तमोऽक्षेपै क्षिपन् सञ्जनयन् कलिं सोऽधिक्षिप्तो दुर्वचोऽपि पाधाहतयिवो रगः निश्चक्रामगतापाणि अमर्ष ताम्रलोचनः गता माविद्यतरसां प्रद्युम् नायमहात्मने प्रक्षिप्य व्यनधन्नाथं वज्रनिष्पेतनिष्ठुरं तामापतन्तीं भगवान् प्रद्युम् नो गतया गताम् अपास्य शत्रवेक्रद्ध प्राहिणोत्स्वगतां नृप स च मायां समाश्रित्य दैतेयिं मय दर्शितां मुमुचेस्त्रमयं वर्षं काष्णो वैहायसोऽसुरः बाध्यमानोऽस्त्रवर्षेण रोक्मिणीयो महारथः सत्त्वात्मिकां महाविद्यां ततो गौख्यक गौह्यकगान्धर्व पैसा चोरगराक्षसी हें प्राङ्क्तसतशोधैत्य कार्ष्णीर्व्यदमयत्सताः निसा तमसि मोद्यम्य सकिरीटं सकुण्डलं सम्भरस्य शिरक्खा या ताम्रश्मस्रवोजसा अहरत् आकीर्यमाणो दिविजै स्तुवद्भिकुसुमोत्करैहेम् भार्ययाम्भरचारिण्या पुरं नीतो विहाय सा अन्तःपुरवरं राजन् ललनासदशङ्कुलं विवेशपत्न्या गगनात् विद्युतेव बला बलाहकः तं दृष्ट्वा जलदश्यामं पीतः कौसेयवाससं प्रलम्बबाहुन्तां राक्षं सुस्मितं रुचिरानम् स्वलङ्कृतमुकाम्भोजं नीलवक्रालकालिभिः कृष्णं मत्वा स्त्रियोह्रीता निलील्युस्तत्र तत्र अवधार्य स नैरीषत् वैलक्षण्येन योक्षितः उपजग्मुः प्रति प्रमुदिता सस्त्रीरत्नं सुविस्मिताः अत तत्रासितापाङ्गी वैधर्भी अस्मरत् स्वसुतं नष्टं स्नेहस्नुतभयोधरा कोन्वयं नरवैधूर्यं कस्य वा कमलेक्षणः लब्धात्वनेनवा, वा मम चाप्यात्मजो नष्टो नीतो यः सुतिका तुल्यवयो रूपो यदि जीवेति कुत्रचित् कथं त्वनेन सम्प्राप्तं सारूप्यं शार्गधन्वनः आकृत्या वयवैर्गत्या स्वरहासावलोकनैः स वा भवेन्नूनं यो मे गर्भे धृतोर्भगः अमुष्मिन्प्रीतिरधिका वामस्फुरतिमे भुजः एवं मीमांसमानायां वै देवकीसुतः देवज्ञानकधुन्धुभ्याम् उत्तमश्लोक आगमत् विज्ञार्थोऽपि भगवान् तूष्णीमास जनार्दनः नारदो कथयत्सर्वं सम्भराहरणादिकं तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तः पुरयोक्षितः अभ्यनन्दन् बहु तब्धान् नष्टमृतमिवागतम् देवकी वसुदेवस्य कृष्णरामौ तथा स्त्रियः दम्पतीतौ परिष्वज्य रुक्मिणी नष्टं प्रद्युम्नमायातम् आकर्ण्यद्वारकौकशः अहो मृत इवायातो भालो दिष्ट्येतिहा ब्रुवन् यं वै मुखो यं वै मुहुः पितृसरूपनिजे सभावा तन्मातरो यदभजन्रकरूढभावाः चित्रं न तत् खलु रमास्पदबिम्ब बिम्बे किमुतान्यनार्यः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथ महाराज के जय